श्रीकरये नमः त्रयोविंशोऽध्यायः भातरायणिरुवाच स एवम् आसंस्थितमुद्धवेन भागवतमुख्येन दशार्हमुख्यः सभाजयन् भ्रत्यवचो मुगुन्तस्तमाभभाषे स्वरणीयवीर्यः श्रीभगवानुवाच बार्हस्पत्यसवैनात्र साधुर्वै दुर्जनेरितैः दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः न तत तप्यते विद्धः कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धवान् तमहं वर्णयिष्यामि निभोत सुसमाहितः केचि भिक्षुना गीत पीभूते न दुर्जन स्मरता न विपाकं निज कर्मण अवंतिषु दिव कचिद आसी आढ़्यतम वार्ता वृत्य गतर्यस्तु कामी कोपन ज्ञातयोतितयस्तस्य वाङ्मात्रेणापि नार्चिताः शून्यावसत आत्मापि काले कामैरनर्चितः दुःशीलस्य कधर्यस्य दृह्यन्ते पुत्रबान्धवाः धारा दुहितरो भृत्या विषण्णा नाचरन् प्रियं तस्यैवं यक्षवित्तस्य च्युतस्त्योभयलोकतः धर्मकामविहीनश्चुक्रुधुः पञ्चभागिनः तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिधा अर्थोऽप्यगच्छन् निधनं भक्वाया सपरिश्रमः ज्ञातयो जगृः किञ्चित् किञ्चित् तस्य उद्धव दैवतः कालतः किञ्चित् ब्रह्मबन्धोर्नृपार्थिवात् स धर्मकामविवर्जितः उपेशितश्च स्वजनैश्चिन्तामाप दुरात्यथा तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः सिद्यतो बाष्पकण्ठस्य निर्वेतसु महानभूत् स चाहेदमहो कष्टं वृतात्मा न धर्माय न कामाय यस्यार्ताया स ईदृशः प्रायेणार्था कधर्म्याणां न कदाचन इकचात्मोपतापाय मृतस्य नरकाय च यशो शुद्धं श्लाघ्याय गुणिनां गुणाः लोपस्वल्पोऽपि तान् हन्ति स्वित्रो रूपं विवेप्सितम् अर्थश्च साधने सिद्धे उत्कर्षे रक्षणे व्यये नासोपभोग आयासस्त्रासश्चिन्तो भ्रमो नृणां स्थेयं हिंसान्तृतं धम्भक्कामक्रोतक् स्मयो मदः भेतो वैरम् अविश्वासः संस्पर्धा व्यसनानि येते पञ्चदशार्ता ह्यर्थमूलामता नृणां तस्मात् अनर्थमर्ताक्यं श्रेयोर्तिदूरतस्त्यजेत् विद्यन्ते भ्रातरोधारः पितरः सुक्रुधस्तत एका स्निग्धा काकिनीना सद्यः सर्वेरयकृतः अर्थे नाल्पीयसा संरब्धा दीप्तमन्यवहा त्यञ्जन्त्या सुभृदोग्नन्ति सहसोतृजसौघृतं लब्ध्वा जन्मा मानुष्यं तद् विजाग्रयतां स्वार्थं घ्नन्ति यान्त्यशुभां गतिं स्वर्गाभवर्गयोर्ध्वारं प्राप्य पुमान् त्रविणे को णुषज्जेतमर्त्योऽर्थस्य धामनि देवर्षि पितृभूतानि ज्ञातिन्बन्तुंश्च भागिनः असंविभज्यसात्मानं यक्ष वित्तः पतत्यदहां व्यर्थयार्थेहया वित्तं भ्रमत्तस्य वयो बलं कस्माच्चङ्क्लिश्यते विद्वान् व्यर्तायार्तेहयाशकृत् कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः किं धनधैर्वा, दन किं कामैर्वा कामधैरुत मृत्युं नाग्रस्यमानस्य कर्मभिर्वोत जन्मधैः नूनं मे भगवान् तुष्टः सर्वदेवमयोहरिः येनीतो दशामेतां निर्वेतश्चात्मनः प्लवः सुखं कालावसेक्षेण सूक्षयैक्ष्ये अप्रमत्तो किल स्वार्थे यदिष्यात्सिद्ध आत्मने तत्र मामनुमोदे रन् देवास्त्रिभुवनेश्वराः मुहूर्तेन ब्रह्मलोकं कट्वाङ्गः समसाधय श्रीभगवानुवाच इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः उन्मुच्य हृदयग्रन्थीन् शान्तो भीषूरभून्मुनिः स चचारमहीमेतां संयात्मेन्द्रियानिलहान् भिक्षार्थं नगरग्रामान् असङ्घो लक्षितो विसन् तं वै प्रवयसं भिक्षोमवधूतमसञ्जनाः दृष्ट्वा पर्यभवन् भद्र भक्तिभिपरिभूतिभिः केचित्त्रिवेणं जगृहुरेके पात्रं कमण्डलुं पीठं चैकेक्षसूत्रं च कन्तां क्षीराणि केचन प्रधाय च पुनस्तानि दर्शितान्याधधुर्मुनेः अन्नं च भैक्षसम्पन्नं भुञ्जानस्य सरितटे मूत्रयन्ति च पापिष्ठा ष्ठीवन्त्यश्च च मूर्धनि यत वाचं वाचयन्ती ताढयन्ती न भक्ति चेत् तर्जयन्त्यप्परे वाग्भिस्तेनोऽयमिति वादिनः भध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यतामिति क्षिपन्त्ये केव जानन्त ये एष धर्मवजटः क्षीणवित्तयिमावृत्तिम् अग्रहीत्वजनोज्जितः अहो एषमकासारो धृतिमां गिरीराडिव मौनेन साधयत्यर्थं भगवद्द्रुटनिश्चयः इत्येकविकसन्त्येनम् एके दुर्वातयन्ति च क्रीडनकं द्विजम् एवं सभौतिकं दुःखं दैविकं दैहिकं च भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तम प्राप्तमभूत्यथ परिभूत इमां गातामगायातनारधमैः पादत्यभिस्वधर्मस्तो धृतिमस्ताय सात्विकीं द्विच उवाच नायं जनो मे सुगदुःखहेतुर्न न देवतात्मा गृहकर्मकालाः मनःपरं कारणमामनन्दी संसारचक्रं परिवर्तयेत् यद् मनोगुणान् वैसृजते बली यत्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यतलोहितानि तेभ्यः भवन्ति आनीह आत्मा मनसा समीहता आनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उत्विचष्टे मनस्वलिङ्गं परिगृह्य कामान् जुषन्निबत्तो गुणसङ्गतोऽसौ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि सर्वे मनो परोखियोगो हि योगो मनसः समाधिः समाहितं यस्य मनः प्रशान्तं धनादिभिः किं वदतस्य कृत्यम् असंयतं यस्य मनो विनश्यद् दानातिभिश्चेदपरं किमेभिः भवन् स्म मनश्च नान्यश्च समेति भीष्मो हि देवः सखसः सखीयान् युज्यात्मसे तं तन्न विजित्य कुर्वन्त्य सद्विग्रहमत्र भर्त्यैर्मित्राण्युतासी न रिपून् विमूटाः देहं मनो मात्रमिमं गृहीत्वा ममाहमिति यं तधियो मनुष्याः किमात्मनश्चात्रः भौमयोस्तद् जिह्वां क्वचित्सं दसति तद्वेतनायां कथमाय कुप्येत् दुःखस्य हेतोर्यदि देवदास्तु किमात्मनस्तत्र विकारयोस्तद् यदङ्गमङ्गेन निहन्यते क्वचित् कृध्येत कस्मै पुरुषस्वदेहे आत्मा यदि स्यात् किमन्यतस्तत्र निजस्वभावः न ह्यात्मनोन्यत् यदि तन्मृषा स्यात् कृत्येत कस्मान्न सुखं न दुःखं ग्रहानिमित्तं सुखदुःखयोश्चेत् किमात्मनो जस्य जनस्य ते वैर् ग्रहैर्ग्रहस्यैव वदन्ति बीढान् कृद्येत कस्मै कर्मास्तु हेतो सुखदुःखयोश्चेत् किमात्मनस्तद्धि जटा झटेत्वे देहस्त्वचित्पुरुषोऽयं स्वपर्ण कृध्येत कस्मै न हि कर्म मूलं कालस्तु हेतो सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ द्वन्द्वं न केनचित् द्वान्त्वो पराग द्वन्द्वोपरागपरतः परस्य यथाहमस्संश्रुतिरूपिणः स्याद् एवं प्रबोधो न बिभेतिभूतैः एतां स आस्ताय परात्मनिष्ठान् अध्यासितां पूर्वतमैर्महर्षिभिः अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाग्रिनिषेवयैव श्रीभगवानुवाच निर्विद्य नष्टद्रविणो गतक्लमः प्रव्रज्जकां पर्यटमान इत्थं निराकृतोषिरभिस्वधर्मात् मम मुनिराकघाता सुखदुःखप्रदो नान्यपुरुषस्यात्मविभ्रमः तस्मात् सर्वात्मना तातनिगृहाणमनो धिया मय्या वेसितया योक्तये तावान् योकसङ्ग्रगः ययेतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः धारयन् स्वारयन् शृण्वन् द्वन्द्वैर्नैवाभिभूयते इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते त्रयोविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराज की जय